श्रीमद्भागवत् महापुराणं सप्तमस्कन्ध अचतुर्थोऽध्यायः हिरण्यकश्यप के अत्याचार और प्रह्लाद के गुणो का वर्णन नारदुवाच एवमृत सतधृतिर्हिरण्यकशिपो रथ प्रादात्तप्सा प्रीतो वरांस्तस्य ता ते मे दुर्लभा पुंसां जानवीशे वरान् मम तथापि वितराम्यङ्गवराण्यद्यपि दुर्लभान् ततो जगाम भगवान् मोघानुग्रहो विभु पूजितो सुरवर्येण सूयमान ब्रजेश्वरैः एवं लब्धवरो दयत्यो बिभ्रद्धेमयं वपुः भगवत्य करो द्वेषं भ्रातुर्वर्धमनुस्मरन् स विजित्य दिश सर्वालोकास्य तीन्महासुरः देवासुरमनुश्चेन्द्रान् गन्धर्वगरुणोरगान् सिद्धतारणविद्याध्रान् ऋषिन् पितृपतिन्मनून् यक्षरक्षपिशाचेशान् प्रेतभूतपतिनथ सर्वसत्त्वपतिं जित्वा वसमानीय विश्वजे धारलोकपालानां स्थानानि सह तेजसा देवोद्यानशियाजिष्टम् अध्यास्ते स्म त्रिविष्टपं महेन्द्रभुवनं साक्षान्निर्मितं विश्वकर्मणां त्रैलोक्यलक्ष्म्यायतनं मध्युवासाखिलधि मान् यत्र विद्रोमसोपाना महामारकृतया भुवः यत्र स्फोटकुड्यानि वैदुर्यस्तम्भपङ्कजः यत्र चित्रवितानानि पद्मरागासनानि च पयफेन निभासय्यामुक्तादमपरिच्छदा कूजन्भेन्पुरिन्द्रैदेव्य शब्दयन्त इतस्ततः रत्नस्थलेषु पश्यन्ति सुरति सुन्दरं मुखं। तस्मिन् महेन्द्रभुवने महाबलो महामना निर्जितलोक एकराट् रेमेभिवन्द्याग्नियुगसुरादिभिः प्रतापितैरुर्जितचण्डशासनः तमङ्गमत्तं मधुनोरुगन्धिना बृवित तां राक्षमशेषणपा उपासतोपायनपाणिभरं धिर्विणा त्रिभिस्तपो योगबलौ यशां पदं जगुर्महेन्द्रासनमोजसासितं विश्वावसुस्तुम्बुरू रश्मदादयः गन्धर्वसिद्धा निद्याधराप्सरसस्य पाण्डव स एव वर्णाश्रमिभिः क्रतोभिर्भूरि दक्षिणैय दद्यमानो हविर्भागान्नगृहीतस्वीन तेजसाम् अकृष्टपत्या तस्यासि सप्तदीपवतीमही तथा कामदुःखादोस्तु नानाश्चर्यपदं न भ रत्नाकरास्य रत्नाकरास्ति रत्नोघान्तपत्न्याश्चोहुरूर्मिभिः क्षारसी धुघृतछोद्रदधिक्षीरामृतोदकाः शैलाद्रोडीभिराक्रीडं सर्वतृषो गुणान् द्रुमाः दधारलोकपालानाम् एक एव पृथग्गुणान् स इत्थं निर्जितकककककुबे कराङ्कविषयान् प्रियान् यथोपजोशं भुञ्जालो नालिप्य ददिञ्जितेन्द्रियः एव मैश्वर्यमत्तस्य दृप्तस्योच्छास्रुवर्तिनः कालो महान् वृतीयाय ब्रह्मशापमुपेयुषः तस्योग्रदण्डसंविघ्ना सर्वे लोकाशपालकाः अन्यात्रालब्धशरणाः शरणं ययुरच्युतम् तस्यै नमोऽ सुकाष्ठायै यत्रात्मा हरिरीश्वरः यद्ग्रत्वान् निवर्तन्ते शान्ता सन्न्यासिनो मलाः इति ते स यतात्मानः समाहितधियो मलाः उपस्तस्थु ऋषिशि के संविनिद्रा वायुभो जनाः तेषां महीरभुद्वाणी अरूपा मेघनिश्वना सन्नादयन्ति ककुभसाधु नाम भयङ्करी मा ना भैष्टविधश्रेष्ठा सर्वेषां भद्रमस्तु वः मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ज्ञातमे तस्य दौरात्म्यं दौतेयापसस्य च तस्य शान्तिं करिष्यामि कालं तावत् प्रतीक्षत यदा देवेषु वेदेषु गोसु विप्रेषु वे साधुषु धर्मे मयि च विद्वेष सव आशु विनश्यते निर्वैराय प्रशान्ताय स्वश्रुताय महात्मने प्रह्लादाय यदादृश्ये धनिश्चेपी व्यं वरोर्जितम्